श्रीहरिे नमः अत्र द्विषष्टितमोऽध्यायः राजोवाचा बाणस्य धनयामूषामुपयेमे यदूत्तमः तत्र युद्धमभूद्घोरं हरिशङ्करयोर्महत् एतत् महायोगिन् समाख्यातुं त्वमर्हसि श्रीसुक उवाच बाणः पुत्रसधज्येष्ठो बलोरासीन्महात्मनः येन वामनरूपाय हरये दायि मेदिने तस्यौरसः सूतो शोणिताक्ये पुरेरं ये सराजम् मकोरत्पुरा तस्य शम्भो प्रसादेन किङ्करा इव ते मराह भगवान् सर्वभूतेश शरण्यो भक्तवत्सलः वरेण चिन्तयामास सतं वव्रे पुराधिपम् स ये गताखगिरिशं पार्श्वस्तं वीर्यधुर्मदः किरीटेन अर्कवर्णेन संस्पृशसंस्तत्तपदाम्बुजम् नमस्ये नमस्ते त्वां महादेवलोकानां गुरुमीश्वरं पुंसामपूर्णकामानाकामपूरामराङ्गिपं धोःसहस्रं त्वया धत्तं परं भाराय मे त्रिलोक्यां प्रतियोद्धारं न लभे त्वत् समम् कण्ढूत्यानिपृधैर्धोर्भैर्युयुत्सुर्दिग्गजानहम् आत्यायां सुर्णयन्नभ्रेन् भीतास्तेऽपि भृदुतृवुः दच्छ्रुत्वा भगवान् क्रुद्धकेतुस्ते भज्यते यदा त्वद्दर्भग्नं भवेन्मोट संयुगं मत्समेन ते इत्युक्तः कुमतिर्हृष्टस्वगृहं प्राविसन्नृप प्रदीक्षं गिरिसादेशं स्ववीर्यनशनं कुदीहे तस्योषा नाम दुहिता स्वप्ने प्राद्युं सा तत्र समपश्यन्ती वादिनी सखीनामद्य उत्थस्थो विह्वला व्रीडिता वृषं बाणस्य मन्त्री कुम्भाण्डश्चित्रलेखा च तत्सुता सखी अपृच्छत् सखी मूषां कौतूहलसमन्विता कं त्वं मृगयसे शुभ्रूगीतृसस्ते मनोरथः हस्तग्राहं न तेद्यापि राजपुत्रीवुपलक्षये उषोवाच दृष्टकश्चिन्नरः स्वप्ने शामक्कमललोचनः पीतवासा बृहद्भाहोर्योषिताङ्घृतयङ्गमः तमहं मृगये पाययित्वा धरं मधु कापि चित्रलेखा युवाच व्यसनं तेऽपकर्ष्यामि त्रिलोक्यां यदि भाव्यते तामानेष्ये नरं यस्ते मनोहर्तादमादि इत्युक्त्वा देव गन्धर्वसिद्धचारणपन्नघान् दैत्यविद्याधरान् यक्षान् मनुजांश्च मनुजेषु च सा वृष्णीन् शुरं मानगदुन्दुभिं व्यलिकत्रामकृष्णौश्च प्रद्युम्नं वीक्षलज्जिता अनिरुद्धं विलिकितं। वीक्ष उषा अवाङ्मुखी ह्रिया सोऽसावसा विधिप्राह शम श्मयमानमहीपते चित्रलेखा पौत्रं कृष्णस्य योगिनी ययौ विकाय सा द्वारकां कृष्ण पालिता तत्र सुप्तम् सुपर्यङ्के भ्रात्युं निं योगमास्थिता गृहीत्वा शोणित पुरं सख्यै प्रियम् अदर्शयत् सा च तं सुन्दर वरं विलोक्यमुदिता गन्तधूपदीपासनादिभिः पाने भोजनभक्ष्यैश्च वाक्यै शुश्रूषयार्चितः घूटक्कन्यापुरे शश्वत्प्रवृद्धस्नेहया तया नाकर्गणान् स बभूते भूक्षया अबहृदेन्द्रियः तां तताय दुवीरेण भुज्यमानां हतव्रतां हेतुभिर्लक्षयाञ्चक्रोरा प्रीतां दुरवश्च दैहे भटा आवेदयाञ्चक्रोराजन्यस्ते दुहितुर्वयं विचेष्टितं लक्षयाम कन्याया कुलदूषणम् अनबायिभिः अस्माभिर्गुप्तायाश्च गृहे प्रभो कन्याया दूषणं पुम्भेर्दुष्प्रेक्षाया न विद्महे ततः प्रव्यथितो भाणो दुःखितुश्रुतदूषणः त्वरितः कन्यकाघारं प्राप्तो द्राक्षित्य कामात्मजं तम्भुवनैकसुन्दरं श्यामं पिशङ्घाम्भरमम्बुजेक्षणं बृहद्भुजं कुन्तलकुन्तलद्विषां स्मितावलोकेन च मण्डिदाननं दिव्यन्तमक्षैप्रिययाभिन्ृम्णया तदङ्कसङ्गस्तनकुङ्कुमस्रजं भाग्वोर्धतानं मधुमल्लिकाश्रुताम् तस्याग्र आसीनमवेक्ष्य विस्मितः सतं प्रविष्टं व्रतमातधायिभेर्भटै अनेकैरवलोक्यमाधवः उद्यम्यमौर्वं परिगम्यवस्थितो यथान्तको दण्डधरो जिघांसया जिकृशया यथा सुकरयूतो भोहन ते हन्यमाना भवनात् विनिर्गता निर्भिन्न मूर्धो रुबुजा प्रधुद्रुभुः तं नागपासैर्बलि नन्दनो बलि घ्नतं स्वैसैन्यं कुपितो बद्धं निशं ज्ञासृकलाक्षरौ दीक्षि इति श्रीमद्भगवते महापुराणे दशमस्कन्ते उत्तरार्धे अनिरुद्धभो नाम द्विषष्टितमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुमहराज की जय